श्रीमद्भागवत्महापुराणं दशमस्कन्ध अथ चतुरशीतितमोऽध्यायः वसुदेवजिकायज्ञोत्सव श्रीशुकुवाच श्रुत्वा पृथा सुबलपुत्र्यथ याज्ञिसेनी माधव्यथ क्षितिं पपत्न्य उत स्वगोप्यः कृष्णेऽखिलात्मनि हरौ प्रणयानुबन्धं सर्वा विशिष्ट्योरलनश्रुकलाकुलाक्ष इति सम्भाषमाणासु स्त्रीभिःस्त्रीषु निभृणुषु आयुर्मुनियस्तत्र कृष्णरामादिदीक्षया द्वैपायनो नारदश्च च मनो देवलोषितः विश्वामित्रसतानन्दो भरद्वाजोऽथ गोतमः रामशशिष्यो भगवान् वसिष्ठो गालवो भृगुः पुलश्च कस्य पुत्रिश्च मार्कण्डेयो बृहस्पतिः द्वितस्त्रितथ्यैकतश्च ब्रह्मपुत्रा सुथाङ्गिराः अगस्त्यो याज्ञवल्क्यश्च वामदेवादयोपरि तान् दृष्ट्वा सहसोत्थाय प्रागासीनानुपादयः पाण्डवाकृष्णरामौ च प्रलयमुलविश्वमिन्वन्दितान् तानानर्चुर्यथा सर्वे सह रामोचितोर्चयत् स्वागतासनपाद्यार्घ्यमाल्यधूपानुलेपनैः उवाच सुकुमासीनान् भगवान् धर्मं गुप्तनुः सदस्तस्य महतो यत वाचो नृशृण्वतः श्रीभगवानुवाच अहो वयं जन्मभृतो लब्धं कास्नेन तत्फलम् देवानापिन्दुष्प्रापं यद्योगेश्वरदर्शनं किं स्वल्पतपसां नृणाम् अर्चायां देवचक्षुषां दस्पन्दर्शनस्पर्शनं तत्नप्रभुमापादार्चनादिकम् न शमयानि तीर्थानि न देवामृक्षिलामयाः ते पुन्पुनन्त्योर्काले न दर्शनादेव साधवः नाग्निर्नशर्यो न च चन्दतारका न खं शशनोत् वाङ्मनः उपासिताभेदकृतो हरन्त्यघं विपश्चितो घ्नन्ति यस्यात्मबुद्धि कुणपेति धातुके स्वदिकलत्रादि सुभोमयेद्यजीं यद्यर्थबुद्धिसलिलेन कर्हि चेञ्चने स्वविज्ञे सुच एव गोगोकर श्रीशोवाच निसम्येत्थं भगवत कृष्णस्याकुण्ठमेधसा वचो दुरन्वयं विप्रा तृष्टिमासन् भ्रमधियः स्थिरं विमृश्य मुनय ईश्वरस्येसि दव्यतां धनसङ्ग्रह तस्तं जगद्गुरुम् मुनय ऊचुः यन्माया तत्त्वविदुत्तमा वयम् विमोहिता विश्वसिजामधीश्वराः यदी सितव्यायतिगूढैहया अहो विचित्रं भगवद्विचेष्टितम् अनीहयेतद्बहुधैक आत्मना शयत्यवत्यर्ति न बध्यते यथा भौमैर्हि भूमिर्बहुनामरूपिणी अहो विभुम्नश्चरितं अथापिकाले काले स्वजनाभिगुप्तये बिभर्षिसत्त्वं खल निग्रहाय च स्वलीलया वेदपथं सनातनं वर्णाश्रमात्मा पुरुषपरो भवान् ब्रह्मते हृदियं शुक्लं तपःस्वाध्याय संयमैह यत्रोपलब्धं सद्व्यक्तम् अव्यक्तं च तत् परम् तस्माद्ब्रह्मकुलं ब्रह्मण् शास्त्रयोने त्वमात्मनः सभाजयसद्धाम तद्ब्रह्मण्या गृणिर्भवान् अद्य नो जन्म साफल्यं विद्यायास्तपसोदृशः त्वया सङ्गम्यं सद्गत्या यदन्तश्रेयशां परः नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे सयोगमायाच्छन्नमहिम्ने परमात्मने नयं विदन्त्य मे भूपायै कारामासविष्णयः मायाजमनिकाच्छन्न आत्मानं कालमेश्वरं यथाशया न पुरुषात्मनं गुणतत्त्वरे नाम मातृन्द्रियाभातं न ना वेदरहितं परम् एवं त्वानाम मात्रेषु विषयेष्विन्द्रियेषयां माया विभ्रमचित्तो न वेद प्रत्योप्लप्लवात् तस्याद्य ते दधि सीमाङ्घ्रिमघो घुमर्ष स्त्रिशास्पदं हृदि कृतं श्रीपक्वयोगैः उस्यक्तभक्त्योपहता श्रीजीवकोशाम् आपुर्भवद्गतिमथोनुगृह्याणभक्तान् श्रीशुकुवाच इत्यनुज्ञाप्य दाशार्षं धृतराष्ट्रं युधिष्ठिरं राजर्षेष्वाश्रमान् गन्तुं मुनियो दधिरे मनः तद्वीक्ष्य तानुप्रवर्ज्य वसुदेवो महायशाः प्रणम्य चोपसंगृह्य भवां प्रभासेत सुयन्त्रितः वसुदेवाच नमो वा सर्वदेवेभ्य ऋषयश्रोतुमर्हथ कर्मणा कर्मनिर्हारो यथाशां नस्तदुच्यतां नारदुवाच नातिचित्रमिदं विप्रा वसुदेवो बुभुश्चयाम् कृष्णं मत्वार्भकं यन्न पृच्छति से आत्मनः सन्निकर्षो हि मर्चानाम् अनादरणकारणं गाङ्गम् भित्त्वा यथा नाम्भ तत्तो याति शुद्धये यस्यानुभूते कालेन लयोत्पत्त्यादि नास्य वै सतोऽन्यस्माच्च गुणतो न कुतश्चन दृश्यते तं क्लेशकर्मपरिपाककुलप्रवाहै द्रव्याहतानुभवमीश्वरमद्वितीयं प्राणादिभिः स्वविभुवैरुपगूढमन्यो मन्येत सूर्यमिव मेघहिमोपरागै अथोर्चुमुनयो राजन्नाभाष्या न कतुन्दुभिं सर्वेषां शृण्वतां राज्ञां तथैवाच्युतरामयोः कर्मणा कर्मनिर्हार निर्हार एष साधु निरूपितः यच्छया युञ्जजे दृष्णुं सर्वयज्ञेश्वरं